गणेशपुराणम् उपासनाखण्डम् अध्यायं 21 विश्वामित्र उवाच इतस्तदो भ्रमन् धावन्वल्लभस्यात्मजस्तदा न नविदेहगदं वस्त्रं भूषणं चादिविह्वलः पप्रच्छब्राह्मणान् मार्गे वृक्षांश्चैव विनायकम् विनायको गधकुत्र गदन्दूमे दृष्टो गदन्तु मे स एवं भ्रान्तहृदयो भ्रमचक्षुनृपोत्तमनिपपादधरापृष्ठे क्षणं विगदचेतनः यस्मिन्नन्तरे स्वप्ने पश्यद् ब्राह्मणमग्रदः दत्तं तवेप्सितं बालमुद्गलेन मया यत्त्वया याचितं पूर्वं विघ्नेशा दृष्टिगोचराद इत्युक्ुक्त्वा प्रस्थिते तस्मिन् ब्राह्मणे नृपसत्तम सुप्तोद्धित इव प्रायो दक्षो हृष्टमनाभवद कस्मैचित् परिपप्रचत्वरिता यद्विजातये अन्तिकं दर्शितं तेन बहुशिष्योपशोभितं मुद्गलस्यादिभक्त्रस्य गजाननरथस्य च आश्रमं परमं दिव्यं सर्वसत्वाभयप्रदं मुद्गलं मनस्साध्यायन् भ्रमण्यातस्तदाश्रमं नानाश्चर्ययुधं रम्यमलकानन्दनाधिकं ददर्शमुद्गलं तत्र पराभ्यासनगं द्विजं वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदं योगाभ्यासबलैर्नानारूपिणं सूर्यतेजसं वैनायकीं महामूर्तिं चतुर्भुजां त्रिनयनां नानालङ्कारशोभिनीम् उपचारैषोडशभिः पूजयन्तं विधानतः ननामदक्षस्तं नाम दक्षस्थं दृष्ट्वा दण्डवत् पृथिवीतले मुञ्चन्नश्रोणिनेत्राभ्यां निश्वसंश्च मुहुर्मुहुः विश्वामित्र उवाच पप्रत्यमुद्गलस्तं तु कस्त्वं कस्मादिहागदः नुदामि दुःखं किन्तेऽस्ति वद सर्वमशेषतः एवं विप्रवच श्रुत्वा कमलानन्दनस्तदा सावधानमना भूत्वा जगादद्विजपुङ्गवं दक्ष उवाच सत्यमेव वदे ब्रह्मन्नभिप्रायं तवान्तिके कर्नाडदेशे राजा भून्नगरे भानुसंज्ञिके वल्लभो नाम निधिज्ञोज्ञानी दादादयान्विद तस्य पत्नी दुगमला जनयामा मां व्यदा तदा दुर्गन्धिक्षतयुः श्रोणितस्राविनासिकः अन्धः कुब्धकर्णखीनः शब्दखी नश्वसन् बहु अभवन्नागरा दृष्ट्वा त्यजैनमिति चाब्रुवन् पिधा मे द्वादशाब्दानि नाना यत्नमथाकरोत् शरीरपाडवार्थं ना उपय सदोमांदरम कमलाकासयामस निर्दरात्मना तदो मे जननी पुरं पुरं खेदमागत कौंडिपुर महासह क्षुधा भिक्षाडने क्रियमाणे पूर्वपुण्यप्रभावतः अभवद्दर्शनं तेषां मन्धस्येव यथा दृशिः तव गात्र भवद्वायोस्पर्श दोषा गदा मम रघु नाथाङ्ग्रिसंस्पर्शादहल्याय यथा दिव्यदेहं समापन्नप्रसादात् तव सुव्रत न मया विदिदं किञ्चिज्जनन्या मे निवेदितम् अहं च विस्मितो भूत्वा निश्चयं कृतवान हृदि यदङ्गवायुस्पर्शेन दिव्यदेहमहङ्गदः तद्दर्शनं यदा स्यान्मे तदा देहं धराम्यहम् एवं भ्रमन् बहुदिनं तदोत्सौ करुणानिधिः आविरासिन्मत्पुरदकोटिसूर्यसमप्रभः उभयोस्तपसातुष्टो देवदेवो गजाननः तं दृष्ट्वा कमलाकामान् सम्प्राप्ता मनसीप्सितान् तदो मामब्रवि देवप्रसन्नो मञ्जुलां गिरं यदर्थं नियमं कृत्वा भ्रमन्त्येदमुपागतः सोऽहं ते दर्शनं व्याधो मुद्गलो ब्राह्मणोत्तम श्रुत्वा तद्वचनं हृष्टमभवन्मानसं मम तदो गजाननमहं स्तुतवान् विविधैस्तवैः उवाच सुप्रसन्नात्मवरं वृणुमहामते अहं च कथयं तस्मै यद्यन्मे मनसीप्सितं ततो ब्राह्मणरूपं तत्त्यक्त्वान्यद्रूपमादधे चतुर्भुजं महाकायं मुकुटाटोपमस्तकं परशुं कमलं मालां मोतकानावहत्तरैः दिव्याम्बरधरं भ्राजद्विषाणकरपुष्करं कुण्डले प्रावहच्छ्रुत्यो सूर्यबिम्बे इवापरे दिव्यालङ्कारसंयुक्तं भुजङ्गवलयोदरं देवर्षिगन्धर्वगणैकिन्नरैरुपशोभिदं तद् आनन्दपूर्णोऽहं दृष्ट्वा रूपं तथा भवम् पूर्णचन्द्रं यथा दृष्ट्वा पूर्णो भवति वारिधिः तेनोक्तं मुद्गलः सर्वान् कामांस्ते परिपूज्यति तदेवान्तर्कितं रूपं दृष्टं यावन्नसादरं यथा स्वप्नकदं सर्वं जागरेणैव दृश्यते तदोकं नितरां खिन्नोऽन्यपदं भुवि प्रतिलभ्यतदः संज्ञां वरं वृण्विति संस्मरन् ययाचे देवदेवेशं सर्वव्यापिनमीश्वरं गृहे मे सुस्थिरा लक्ष्मीर्भक्तिर्मे तादृशी तव दृष्टश्चेत् पूर्वपुण्येन द्वयमे दत्प्रदीयताम् तदोऽहं श्रुतवान् दत्तमिति वाचं नभो गदां मुद्गलस्त्वं द्वीपास्यो स द्वीपास्यस्त्वं स मुद्गलः इति मे मनसि स्पष्टं भाधि सर्वं गजाननः भृगुरुवाच इति तद्वचनं श्रुत्वा मुद्गलो वाक्यमब्रवीत् सभाघ्यकृतकृत्योऽसि भक्तिमान् कमला सुदा मही मातवभक्तेर्हि वक्तुं शक्यो न केनचिद तपामि सुदृढं चाकं दशवर्षशतं तपः नम एतादृशो देवो दृष्ट आसीत्कदाचन यत्सर्वजगदां नाथश्चराचरगुरोर्गुरुः यो रजसत्त्वतमसां नेना नित्यं गुणाश्रयः यो ब्रह्मशिवविष्णूनां शरीराणि करोति हि भूतानां च विभूतीनां मात्रेन्द्रिय धियामपि यं न देव विदुः च एवं गजाननं त्वं हि प्रत्यक्षं दृष्टवान् स्फुटम् अहं त्वच्चरणौ वन्दे यतः त्वं भक्त्रिमान् परः ततः परस्परं तौ दु नेमस्तुश्चालिलिङ्गदुः गुरुबन्धु चिरङ्गालमेकचित्तौ समागतौ तद एकाक्षरमन्त्रं सं जबध्यानपूर्वकम् मुद्गलो राजपुत्राय नम्रायोपदिदेशः उवाचैनं भूयोऽपि मन्द्रस्यास्य दिने दिने अनुष्ठानं कुरुष्वत्वं प्रसन्नस्ते भविष्यति गजाननो ददेत् कामान् मनसा वाञ्छितां त्वया ये नम सर्वशो येन चेत ना मंत्रो नाशम्यस य भक्तिर लोके विचरीष्यलोकपाल गणों वश्यम्युवाखिला भोगानंद मोक्षमसेशणे उपाससनाखंडे मंत्रोपदेशर्णनम नामैकविंशतितमोऽध्यायः ओम्